अर्धशब्दसमासः शिष्यः श्रीमन् अर्धफलम् इति प्रयोगः उचितः उत फलार्धम् इति प्रयोगः युज्यते आचार्यः अर्धफलम् इति रूपं साधु फलार्धम् इति रूपं तु समर्थनसापेक्षम् अतः फलार्धः इति प्रयोगः एव वरम् शिष्यः किमर्थं तथा किमर्थम् इति ज्ञातव्यं चेत् अर्धशब्दस्य अर्थविषये समासविषये च आदौ किञ्चित् ज्ञातव्यं भवता शिष्यः अर्धशब्दस्य कः अर्थः आचार्यः अर्थश्च अत्र लिंगं अवलम्बते अतः भवान् वदतु अर्धशब्दः किं शिष्यः अर्धशब्दः नपुंसके आचार्यः न केवलं नपुंसके अपि तु अपि शिष्य तमाम नपुंसकिंग अर्थ्य अर्धशब्दी कृहित शिष्य भाग आचार्य भाग दचि असमशवाची चेती शिष्य सामशवाची आचार्य भागक भागद्वय यची नपुंसकिंग अर्धशब अर्धम प्रयुज्यसल से अर्ध शिष्य यहाँ तर्धश असमशवाची खंड सामी आचार्य आम तत्र सः पुंसि तन्नाम अर्धः इति रूपं प्रयोगो यथा फलस्य अर्धः तेन मह्यं दत्तः शिष्यः अर्थः तु इदानीं मया अवगतः एतौ उभौ अपि शब्दौ अर्धम् अर्धः च समस्यते खलु आचार्यः उभौ अपि समस्यते इति तु सत्यं किन्तु उभयत्रापि समानः समासः न शिष्यः तन्नाम आचार्यः अर्धफलम् इत्यत्र अर्धं फलस्य इति विग्रहः अत्र अर्धशब्दः नपुंसके प्रथमा तत्पुरुषसमासः एकदेशीसमासः अत्र अर्धं नपुंसकम् इति सूत्रम् फलार्धः इत्यत्र फलस्य अर्धः इति विग्रहः तत्र अर्धशब्दः पुंसि तत्र षष्टि तत्पुरुषः शिष्यः समांशवाचि नपुंसकत्वविशिष्टः अर्धशब्दः प्रथमा तत्पुरुषसमासं खण्डसामान्यमात्रार्थवाचि अर्धशब्दः षष्टि च प्राप्नोति आचार्यः एतदत्र स्मर्तव्यं यत् प्रथमा तत्पुरुषे अवयवी फलादिकम् एकवचनांतः एव स्यात् इति नियमः अर्धम् फलानाम् इत्यत्र न समासः व्यस्तप्रयोगः एव तत्र शिष्यः एते सर्वे अंशाः कुत्र उक्ताः सन्ति आचार्यः अर्धं नपुंसकम् इति सूत्रस्य वृतौ शिष्यः अत्र अर्धफलानि सन्ति इति प्रयोगः किं न सम्भवति आचार्यः प्रयोगः तु सम्भवति किन्तु विग्रहवाक्यं तु अर्धानि फलानाम् इति शिष्यः कीदृशं विग्रहवाक्यं स्यात् तत्र आचार्यः अर्धं फलस्य अर्धफलम् अर्धफलं च अर्धफलं च अर्धफलं च अर्धफलानि इति खण्डसमुच्चयः वक्तव्यः तत्र अयं क्रमः कौमुद्याः टीकायां तत्त्वबोधिन्यां दर्शितः भवति अस्तु अर्ध अर्धफलम् इति प्रयोगः साधो अथवा फलार्धः इति अपि कर्तुं शक्यते परन्तु प्रयोगे इदानीं अर्धशब्दस्य च अर्थस्य अपि च समासविषये च अर्थ अर्थविषये ज्ञातव्यम् इति प्रश्नः अत्र अतः यदि अर्थः भाग अर्धशब्दस्य अर्थः तु भागः इति यदा भागः समांशः भवति समानांशः भवति तदा तत्र प्रथमा तत्पुरुषसमासः भवति तत् इत्युक्ते अर्धफलम् यदि वयं वदामः तत्र तु प्रथमतत्पुरुषसमास प्रथमतत्पुरुषसमासः भवति अपि च फलस्य समान अंशः अर्धः तत्र यदि फलार्धः इति पुल्लिङ्गे प्रयोगः भवति तत्र तु तत् भवति इति तत्र समान अंशः न भवति भागस्य इति सारांशः इति अहं अस्तु सत्यं हा हा तत् सर्वम् उक्तम् अस्तु अत्र अहं ज्ञातुमिच्छामि यावत् उक्तम् एतावत्पर्यन्तं स्पष्टमस्ति सर्वेभ्यः अथवा इतोपि वक्तव्यम् अस्ति लैकः स्पष्टः अव अवगमनं भवति अथवा न मम एकप्रश्नम् अस्ति अर्ध अर्थः इन् कन्नडभाषायां अर्ध नाट् फ्राक्षन् ईक्वल् पर्ट्स् सो इन् संस्कृते फ्राक्षन् भवति वा अर्धमाने फ्राक्षन् 50-50% hmm? uh, no, uh, 49% and, uh, 51% अस्तु अस्तु किञ्चित् पश्यामः अद्यत्वे आधुनिकभाषासु भारतदेशे अर्धशब्दस्य सामान्य अर्थः भवति पञ्चाशत् प्रति पञ्चाशत् पञ्चाशत् प्रतिशतम् इति विभागः भवति खलु इति भवति खलु किन्तु अत्र संस्कृतभाषायाम् नास्ति सः अर्थः अपि अस्ति नपुंसकलिङ्गे किन्तु पुल्लिङ्गे अपि भिन्न अर्थः भवति तु किञ्चित् किञ्चित् पश्यामःैः इतोपि अवगमनं भवितुमर्हति इति अहं चिन्तयामि अत्र अस्माकं विषयः अस्ति समासः अस्मिन् पुस्तके प्रथमपाठः यस्य मुख्यविषयः हा समासः अस्ति अत्र तु सर्वेषां किञ्चित् ज्ञानमस्ति खलु तत्र बाणवार्गे समा समासस्य किञ्चित् पाठः जातः खलु अस्तु हा, हा तु अत्र अत्र अर्धपदेन सह कीदृशसमासः भवति इति अस्माकं विषयः अद्य कुत्रचित् पाठेषु अस्मिन् पुस्तके पाठेषु कुत्रचित् विषयः विशालः सर्वदा एव तस्य अन्वयः भवति किन्तु अत्र एवं नास्ति बहु विशिष्टविषयः अस्माकम् अद्य तथापि या भाषा भवति लेखे सः तु बहु उपयोगिभाषा अस्ति उपयोगिनी भाषा इति वदामः तु प्रत्येक एक, प्रत्येकं पाठे वार्ताद्वयं भवति एका वार्ता भवति लेखस्य विषयः अन्या वार्ता भवति लेखे या भाषा भवति प्रयोगः भवति तदपि मूल्यवान् अस्ति अस्मभ्य अस्मभ्यं तु अत्र उभमपि वयम् उभयमपि वयं पश्यामः अस्तु अत्र अर्धपदम् इत्यस्य लिङ्गद्वयं भवति यथा उक्तं शान्तिभगिन्या नपुंसकलिङ्गं पुल्लिङ्गं च अत्र लिङ्गनुसारम् इत्युक्ते लिङ्गावलम्ब्य अर्थभेदः भवति अत्र अर्धः इत्युक्ते भागः किन्तु तत्र भागः द्विधा अथवा भागः द्विविधः प्रकारद्वयं भवति तस्य यदा किमपि वस्तु कर्त्यते तदा तस्य mm. तस्य वस्तुद्वयं भवति खलु एकं वस्तु, mm. वस्तु कर्त्यते तदा तस्य वस्तुद्वयं भवति यदि द्वयोः भागयोः आकारः समानः तर्हि भागद्वयं समांसम् इति उच्यते तत्र नपुं नपुंसकलिङ्गसमांसवाचि समांसवाचि अर्धशब्दः इत्युक्ते अर्धं यदि भागद्वयं समांसमेव पञ्चाशत् प्रतिशतमाकारः द्वयोः तर्हि नपुंसकलिङ्गे अर्धं पदं भवति यदा वस्तु कर्तते तर्हि यदि द्वयोः भागयोः आकारः समानः न तर्हि भागद्वयम् असमांसम् इति उच्यते असमांसं भागद्वयम् असमांसं तत्र असमांसम् इति विशेषणमस्ति भागद्वयस्य असमांसम् इत्युक्ते अत्र कर्मधार्यसमासः अस्ति सम अंशः सम इति विशेषणमस्ति अंशः इति पुल्लिङ्गपदमस्ति अंशः यत्र सम प्लस् अंशः समांशः तु समः अंशः इति वि विग्रहवाक्यमस्ति विग्रहवाक्यं यद् यत्र विच्छेदः भवति खलु स्पष्टीकरणाय तत्र विग्रहवाक्यम् इति उच्यते तु समांसः इत्यस्य विग्रहवाक्यं समः अंशः समांशः अत्र भागद्वयमिति न पुंसकलिङ्गे अस्ति इति कारणतः भागद्वयम् असमांसम् इति उच्यते तत्र असमांसवाचि अर्धशब्दः भवति पुल्लिङ्गे अथवा पुंसि अर्धः यत्र आकारः समानः नास्ति द्वयोः तत्र अर्धः इत्यु इति उच्यते उदाहरणमत्र दत्तमस्ति व्यासः गोलस्य अर्धं नपुंसके अत्र व्यासः व्यासः तिथि डयामेटो इति अर्थः <laughs> <आ>, सर्वे जानाति प्रयः <laughs> अत्र द्वयोः भागयोः आकारः समानः एव किन्तु फलस्य अर्धः तेन मह्यं दत्तः तत्र सामान्यभागद्वयमस्ति समानः mm. आकारः नास्ति तत्र आ, mm. तत्र इत्युक्ते यत्र पुल्लिङ्गपदमस्ति अर्धः तत्र समाना समान आकारः न भवति अस्तु तत्सर्वं तत्सर्वम् अवगम्य ज्ञात्वा इदानीम् अर्जुनसमासः कीदृशः भवति इति अस्माभिः द्रष्टव्यं प्रश्न आकारः च परिमाणः अकारः इति वक्तुं शक्यते परिमाणः परि आ, यत्र मापनं भवति आकारः इति भवति अकार Uh, आक, तस्य आकारः आकारः समानः अस्ति न वा uh, इति द्रष्टव्यः खलु सैज़् इति अस्तु hmm. अग्रे गत्वा तेन फलार्धः खादितं तत्र uh, वाक्यद्वयं शुद्धम् इति उक्तम् hmm? अत्र uh, फलार्थः इत्यस्य विग्रहवाक्यं भवति फलस्य अर्थः षष्टितत्पुरुषसमासः इति सर्वैः ज्ञातः खलु सर्वे जानन्ति वा ah. षष्टितत्पुरुषसमासः ah. तत् mm -hmm. सर् uh, सर्वत्र दृश्यते षष्टितत्पुरुषः षष्टितत्पुरुषसमासः mm -hmm. प्रायः अधिकधिकदृश्यते सर्वेषु समासेषु षष्टि तत्पुरा तत्पुरुषसमासः एव अत्र फलस्य अर्धः इति वयम् अवगन्तुं शक्नुमः सुलभतया खलु फलस्य अर्धः तत् स्पष्टमस्ति सर्वेभ्यः फलार्धः अस्ति किन्तु अत्र अर्धफलम् इत्यस्य विग्रहवाक्यं किं भवति अर्धं फलस्य प्रथमा तत्पुरुष एकदेशीसमासः इति उच्यते uh, so, अत्र पुंसि अर्धः इति रूपं षष्टितत्पर प्रा, षष्टितत्पुरुषसमासं प्राप्नोति नपुंसकलिङ्गे अर्धम् इति रूपं प्रथमातत्पुरुषसमासं प्राप्नोति अत्र समासेषु नियमः अस्ति uh, प्रथमतया अहं वदामि प्रथमातत्पुरुषसमासे उत्तरपदं सर्वदा षष्टिविभक्तौ एकवचने इति भवति प्रथमतत्पुरुषसमाससमासे उत्तरपदं सर्वदा षष्टिवि विग्रहवाक्ये इति विग्रहवाक्ये उत्तरपदं सर्वदा षष्टितत्पुरुष षष्टिविभक्तौ एकवचने इति भवति अतः प्रथमतत्पुरुषसमासः विशेषसमासः इत्युक्ते समासेषु सामान्यतत्पुरुषसमासः अन्यतमः अस्ति सामान्यतत्पुरुषसमासः इत्युक्ते द्वितीयतत्पुरुष तृतीयतत्पुरुषचतुर्थी पञ्चमी षष्टि सप्तमी तत्र सामान्यतत्पुरुषसमासः इति उच्यते अस्मिन् किं भवति अस्मिन् सर्वत्र अस्तु कोऽपि वक्तुं शक्नोति वा सामान्यतत्पुरुषे कीदृशपदं की भवति तत्र नियमाः तस्य लक्षणं किम् तत्र विभक्तेः वि, विषये विषये किं भवति तत्पुरुषस्य सामान्यतत्पुरुषस्य किं भवति पदद्वयमस्ति खलु पूर्वपदमस्ति अनन्तरम् उत्तरपदमस्ति सामान्यतया पूर्वपदं प्रथमाभिव्यक्ति अथवा द्वितीयाव्यक्ति तृतीयाभिव्यक्तिः एवमेव भवति तत्पुरुषसमासे तु किं भवति यत् यत्र पदद्वयं समस्यते तर्हि पूर्वपदस्य विषये किं भवति किं भवति किं भवति तत्र किञ्चित् इतोपि वदतु महोदय पूर्वपदस्य इत्युक्ते यथा यदि षष्टि तत्पुरुषसमासः अस्ति यथा मित्रगृहं मित्रगृहम् अस्ति षष्टि षष्टिविभक्तेः लोपः भवति <laughs> षष्टिविभक्तेः लोपः भवति मित्रस्य गृहम् इति मित्रगृहं भवति <laughs> पूर्वपदस्य विभक्तेः लोपः जातः <laughs> अनन्तरं सामान्यतत्पुर, सामान्यतत्पुरुष सामान्यतत्पुरुष समासे मुख्यनियमः कः अर्थदृष्ट्या इत्युक्ते कस्य पदस्य प्राधान्यमस्ति पूर्वपदस्य अथवा उत्तरपदस्य उत्तरपदस्य हा सत्यं तु सामान्यतत्पुरुषे सामान्यतत्पुरुषसमासे उत्तरपदप्राधान्यमस्ति इत्युक्ते क्रियपदेन सह सम्बन्धः अथवा अन्वयः भवति अनन्तरं पूर्वपदस्य विभक्तिलोपः भवति इति सामान्य रूपमस्ति अनन्तरं बहु महत्त्वपूर्णनियमः अस्ति अत्र अस्माकं यत् विग्रहवाक्ये उत्तरपदं प्रथमा विभक्तिः सर्वदा भवति सर्वदा प्रथम यथा यथा मित्रगृहम् इति इति उदाहरणमस्ति मित्रगृहस्य अन्ते बहूनि वस्तूनि सन्ति इत्युक्ते मित्रगृहे इति इति वदामः त तत्र सप् सप्तान्तः मित्रगृहे बहूनि वस्तूनि सन्ति किन्तु मित्रगृहे इत्यस्य विग्रहवाक्यं किम् मित्रगृहे मित्रगृहे बहूनि वस्तूनि सन्ति मित्रगृहे पदस्य विग्रहवाक्यं किम् अस्मिन् इति भवति समीचीनं विसेश, इति भवति यथा उक्तं शान्तिभगिन्या तत् सत्यं mm. यतोहि अस्माकं नियमः भवति विग्रहवाक्ये यत् उत्तरपदं सर्वदा विग्रहवाक्ये mm -hmm. प्रथमाविभक्तौ भवति mm -hmm. किन्तु mm -hmm. अत्र अस्माभिः दृष्टं मित्र गृहे इति मित्रस्य गृहं तस्मिन् mm -hmm. गृह इत्युक्ते गृहं प्रथमाविभक्तौ किन्तु यत्र प्रथमा तत्पुरुषसमासः भवति तत्र किञ्चित् भिन्नमस्ति पश्यामः oh. यथा सामान्यं पूर्वपदस्य विभक्तिलोपः भवति अनन्तरम् उत्तरपदस्य प्राधान्यम् अस् अस्ति विग्रहवाक्ये विग्रहवाक्ये पूर्वपदस्य पूर्वपदस्य प्रथमाविभक्तिः यथा सामान्यम् इत्युक्ते प्रथमा यदि षष्टि तत्पुरुषसमासः अस्ति तत् तर्हि पूर्वपदं षष्ठीविभक्तौ अस्ति खलु विग्रहवाक्ये मित्रस्य मित्रस्य पञ्चमी अस्ति चेत् पूर्वपदस्य पञ्चमी चतुर्थी अस्ति चेत् ज्योतिर्पदस्य पञ्चमे चतुर्थीविभक्तिः भवति अत्र यथा सामान्यं पूर्वपदस्य प्रथमाविभक्तिः अस्ति किन्तु उत्तरपदस्य प्रथमा प्रथमाविभक्तिः नास्ति षष्ठीविभक्तिः भवति अत्र किमर्थम् इति ज्ञातव्यम् अत्र उदाहरणमासीत् अस्मिन् लेखे अर्धफलं तो विग्रह विग्रहवाक्यं किम् उत्तरपदं षष्टिविभक्ति उत्तरपदस्य षष्ठीविभक्तिरूपम् अस्ति अर्धं फलस्य इति भवति किमर्थं किञ्चित् पश्यामः इतोपि उदाहरणानि कानिचन अहं वदामि पूर्वकायः कायः इत्युक्ते का शरीर शरीरं सत्यं कायः इत्युक्ते शरीरं पूर्वकायः अत्र विग्रहवाक्यं भवति पूर्वं कायस्य पूर्वं कायस्य अत्र अर्थः भवति शरीरस्य पूर्वीभागः अथवा शरीरस्य अग्रभागः अनन्तरम् अपरकायः अपरकायः इत्युक्ते अपरं कायस्य इत्युक्ते शरीरस्य पृष्ठभागः अस्तु अपरगृहम् अपरगृहम् इत्यस्य विग्रहवाक्यं किम् अपरं गृहस्य अर्थः कः पृष्ठभागः गृहस्य पृष्ठभागः गृहस्य पृष्ठभागः गृहस्य पृष्ठः पृष्ठतः न यथा मम पुरतः मम पृष्ठतः एवं न तस्य एव गृहस्य एकः भागः कः भागः पृष्ठभागः अस्तु अधर भवनम् इत्यस्य विग्रहवाक्यं किम् अधर भवनम् अधर भवनस्य अधर भवनस्य अर्थः कः आम् तदपि भवितुमरायां भवनस्य अधोभागः इति वदामः अत्र अर्धनगरी तस्य विग्रहवाक्यं किम् अर्धनगरीभागं विग्रहवाक्यं वदतु कोऽपि अर्धं नगर्याः सत्यं सत्यं अर्धं नगर्याः अर्थः कः नगर्याः अर्धभाग नगर्याः अर्धभागः अर्धभागः पञ्चाशत् प्रतिशतम् अत्र पुस्तकलिङ्गे अनन्तरम् अर्धपुस्तकं पुस्तकस्य सत्यं स्पष्टमस्ति खलु अर्धकम्बलः अर्धकम्बलः पूर्वं उत्तरभारतम् किमर्थं वारं वारम् अहं पृच्छामि इत्युक्ते अत्र कीदृश प्रवृत्तिः अस्ति कीदृशधारणम् अस्ति अत्र सत्यं किमर्थमिति अत्र समानभागः इत्यर्थे अथवा अत्र किमर्थमिति वदामि पूर्व अत्र प्रथमतत्परुषसमासे पूर्वपदः अवयवः इति भागः सर्वत्र सर्वत्र पूर्वपदः इति अवयवः उत्तरपदः इति अवयवी हा तु अत्र अवयवी इत्युक्ते अवयवः अस्मिन् अवयवः इत्युक्ते भागः खलु अवयवः हा अवयवः इति भागः तु अत्र सङ्ग्रहः अवयव अवयवी इति इत्युक्ते सङ्ग्रहः समुदायः समुच्चयः कलेक्शन् इति सङ्ग्रहः तु अत्र प्रथमातत्पुरुषसमासे सर्वदा एतादृशी व्यवस्था अस्ति इति कारणतः बहुषु पुस्तकेषु यत्र सामान्यतत्पुरुष सामान्यतत्पुरुषसमासस्य विभागः अस्ति व्याकरणस्य पुस्तके तत्र प्रथमापुरु प्रथमा तत्पुरुषसमासः पृथक् भवति यत्र द्वितीया तृतीया चतुर्थी पञ्चमी षष्टि सप्तमी भवति तत्र न भवति प्रथमा तस्य नाम अपि भिन्नं बहुषु पुस्तकस्य तस्य नाम भवति अवयवावयवी तत्पुरुषसमासः अवयव अवयव अवयवी तत्पुरुषसमासः अवयवावयवी तत्पुरुषसमासः इति नाम तस्य तु अत्र किञ्चित् अवगन्तुं शक्नुमः अत्र यत्र यथा उदाहरणार्थम् अर्धनगरी अर्धं नगर्याः mm -hmm. नगरी इति एकः सङ्ग्रहः नगरी इति सङ्ग्रहः अस्ति नगर नगरीषु इति नगर्याम क्षम्यतां नगर्यां बहवः भागाः बहवः अवयवाः सन्ति क्षे क्षेत्राणि सन्ति खलु एकस्यां नगर्यां क्षे भवन्ति बहूनि क्षेत्राणि सन्ति तत्र अवयवाः सन्ति अनन्तरं सङ्ग्रहः अस्ति सङ्ग्रहस्य सङ्ग्रहस्य तत् षष्टिविभक्तिः भवति यथा यथा गृह गृहमस्ति अनन्तरं प्रकोष्ठाः सन्ति प्रकोष्ठाः सन्ति गृहे तु गृहस्य प्रकोष्ठाः भवन्ति गृहस्य भागाः भवन्ति mm. गृहम् इति अवयवी प्रकोष्ठाः इति भागाः अथवा अवयवाः mm -hmm. स्पष्टमस्ति वा अवयवी इत्युक्ते यत्र भागाः सन्ति ते अवयवी इत्युक्ते इत्युच्यते अवयवानां सङ्ग्रहः अवयव अवयवानां सङ्ग्रहः अवयवी यथा यथा पक्षी पक्षि इति इत्युक्ते खगः खलु पक्षि इत्युक्ते यस्मिन् पक्षाः सन्ति पक्षः इति विन् विङ्ग् यत्र पक्षाः सन्ति तत् तत् यस्मिन् पक्षाः सन्ति सः पक्षी यस्मिन् गुणाः सन्ति सः गुणी हा गुणी इति वदामः प्रथमाविभक्तौ हा यस् यस्मिन् गुणाः सन्ति सः गुणी यस्मिन् पक्षाः सन्ति सः गुणी यस्मिन् अवयवाः सन्ति सः अवयवी तु अत्र अतः प्र प्रथमा तत्पुरुषसमासे पूर्वपदं सर्वदा अवयवः उत्तरपदं सर्वदा अवयवी अवयः mm. हा तु अवयविनः षष्टिविभक्तिः वदामि षष्टिविभक्तिः अव् अवयविनः सर्वदा षष्टिविभक्तिः भवति यथा गृहस्य अर्धगृहम् अर्धगृहस्य अर्धं गृहस्य गृहस्य अर्धं गृहस्य भागः तु यस्मिन् भागाः सन्ति तत्र आ, षष्टिविभक्तिः भवति अतः यद्यपि द्वितीय तृतीयचतुर्थी पञ्चमी षष्टि सप्तमी तत्पुरुषसमासपदेषु वि विग्रहवाक्ये सर्वदा एव उत्तरपद उत्तरपदं प्रथमाविभक्तिः भवति किन्तु अत्र उत्तरपदस्य वि विग्रहवाक्ये षष्टिविभक्तिः भवति किञ्चित् स्पष्टमस्ति वा अथवा स्पष्टमस्ति अस्तु अस्माकं मुख्य अंशः अत्र एवम् अस्ति तदनन्तरं अन्यवा अन्यवार्ता अस्ति अत्र यत् प्रथमा तत्पुरुषस्य अन्यनाम अस्ति एकदशिसमासः एकदेशि एकचत्वारिंशत्तमे पूटे अस्ति उपरि भागे प्रथमतः प्रथमा तत्पुरुषः एकदशिसमासः एकदेशीसमासः इति किमर्थम् एकदेशीयवाचकः अव्ययः इत्युक्ते एकस्मिन् स्थाने भागः एकस्मिन् स्थाने अस्ति यथा नगरमस्ति तस्य क्षेत्राणि भवन्ति नगरे नगरे बहवः अवयवाः सन्ति किन्तु एकः भागः एकस्मिन् देशे अस्ति भागः एकस्मिन् देशे अस्ति भागस्य विभजनं न भवति किन्तु भागस्य विभजनं न भवति एकदेश अस्ति अवगच्छति वा न देश इत्युक्ते किं अत्र देशः इत्युक्ते न न भागं न एकं स्थानम् एकं स्थानं हा अवयवस्य एकमेव स्थानं भवति एवं वक्तुं शक् शक्नोति वा भा, भागाः एकमेव अस्ति सङ्ग्रङ्ग्रहेण अत्र आ, नगरे बहवः भागाः सन्ति अतः नगरस्य विभजनं भवतु भवितुमर्हति नगरस्य विभजनं भवितुमर्हति किन्तु भागस्य विभजनं नास्ति भागः एकमेव एक स्थानमस्ति एकः एव एक देशः तस्य विभजनं विभजनं जातमेव यत्र नगरमस्ति बहवः अवयवाः सन्ति यदि प्रत्येकं प्रत्येकः विभागः पृथक् पृथक् भवति तत्र विभजनं जातं भागः इत्यस्मिन् पुनः न भवति भागः अस्ति एव एक अतः प्रथमा तत्पुरुषस्य एकं नाम अस्ति एकेषु यतोहि भागाः एकादशी वाचकाः सन्ति mm -hmm. mm -hmm. वा, so, यस्य विभजनं न भवति तत् पूर्वपदमस्ति यस्य विभजनं भवति तत् उत्तरपदमस्ति mm -hmm. पूर्वपद पूर्वपदम् एकः भागः उत्तरपदम् एकः सङ्ग्रहः mm -hmm. सङ्ग्रहः अथवा समुदायः समुदायस्य षष्टिविभक्तिः अनन्तरं पूर्वपदस्य प्रथमाविभक्तिः भवति अतः अर्धफलम् इति अर्धफलस्य यतोहि फले बहवः अवयवाः सन्ति भागाः सन्ति फले किन्तु अर्ध अर्धम् अर्धमेव Mm -hmm. अर्धे भागाः न सन्ति अर्धमे अर्धमेव एकदेशी अस्ति स्थानमस्ति अर्धम् अतः अर्धफलम् इति इति उच्यते मुख्य अंशः एषः एव इदानीं प्रायः अग्रे ग गच्छामः चेत् इतोपि स्पष्टः भवेत् अस्मिन् पाठे इतोपि प्रश्नाः सन्ति वा एकः प्रश्नः अस्ति आचार्य वदति अर्धं नपुंसकं कोटान् कोट् इति सूत्रस्य वृत्तौ सूत्रस्य वृत्तौ व्याख्यानं करोतु सूत्रस्य वृत्तौ अत्र वृत्तौ इति सप्तमी विभक्तिः अस्ति वृत्तिः किञ्चित् व्याख्या एतत् एकः सङ्केतः तावदेव रेफ्रेन् अर्धं स नुंसकम् इति सूत्रस्य वृत्तौ वृत्तिवृत्तौ सप्तमी विभक्ति सप्तमी अस्ति अत्र सूत्रस्य वृत्तौ आम, एते सर्वे अंशाः कुत्र उक्ताः सन्ति अर्धं नपुंसकम् इति सूत्रस्य वृतौ सूत्रस्य वृत्तिः इति स्पष्टीकरणं सूत्रस्य वृत्तिः इति यथा कोऽपि लेखः लेखकः बहूनि सूत्राणि लिखति अनन्तरं पञ्चाशत् वर्षेभ्यः अनन्तरम् इतोपि कोऽपि अन्यत् पुस्तकं तस्य एव तेषां सूत्राणां विषये लिखति त, तत्तु वृत्तिः इति mm -hmm. व्याख्या mm. इति भवति तु तत्र अर्धं पुंसकम् इति सूत्रस्य वृत्तौ इतोपि सूचना भवति यदि कोऽपि द्रष्टुमिच्छति अस्तु hmm? mm -hmm. इदानीम् अग्रे यदि गच्छामः तर्हि प्रायः इतोपि मम एका प्रश्न अस्ति अस्तु पूर्वे यत् महोदयः पृष्टवान् अत्र वृतौ इति सप्तमी किं तृतीया किं न इति मम प्रश्न तृतीया तृ, सूत्रस्य आधारेण इति इति वा अर्थम् अत्र सूत्रस्य आधारेण किन्तु ऋतौ इति सप्तमी विभक्तिः तावत् भवान् अवगच्छति वा ऋतौ इति रूपं वृत्तिः इति अस्य सप्तमी वृतौ इति ऋतौ इति सप्तमी एकवचनम् इति जानाति अस्तु परन्तु सप्तमीप्रयोगः किमर्थं किमर्थम् इति अहं न जानामि अस्तु तदेव मम प्रश्न अस्तु यत्र अस्तु अहं वदामि यत्र कुत्र इति प्रश्नः उदेति तत्र तस्य उत्तरे सप्तमी विभक्तिः भवति यथा पुस्तकं कुत्र अस्ति प्रकोष्ठे अस्ति गृहे अस्ति तु अत्र प्रश्नः अस्ति कुत्र उक्ताः एते सर्वे एते सर्वे अंशाः कुत्र उक्ताः सन्ति तु कुत्र इति प्रश्नः अस्ति अतः उत्तरम् इति कुत्र इति सप्तमी भवति भवति खलु अतः ओ ऐ सि ऐ ओके एते सर्वे अंशाः कुत्र उक्ताः सन्ति सत्यम् अर्धौ अर्धनपुंसकमिति सूत्रस्य ऋतौ ओ तत्र इदानीम् अवगतम् इदानीम् अवगतम् अस्तु अस्तु अस्तु अग्रे गमनात् पूर्वं अस्मिन् वस्तुतः अस्मिन् पाठे बहु किमपि अस्ति किन्तु त किञ्चिदुपरि आचार्यः वदति एतदत्र स्मर्तव्यं यत् प्रथमात् तत्पुरुषे अवयवी फलादिकं तो इदानीं वयम् अवगन्तुं शक्नुमः खलु अवयवी इति यस्मिन् अवयवाः सन्ति फलादिकं नगरं यत्किमपि अस्ति एकवचनान्तः एकवचनान्तः एव स्यात् इति नियमः अत्र बहुवचने न भवति बहुवचने भवति चेत् तस्य विग्रहवाक्यम् एकवचने एव भवति अन्ते उक्तं यत् शिष्यः पृच्छति पलं, अर्ध अर्धफलानि आमामाम् आम, एवं तु अर्धफलस्य hmm. अर्धफलम् अनन्तरं बहुवचने एवं भवति hmm. खण्डसुमु इति अस्तु तावदेव अग्रे अग्रे गन्तुं शक्नुमः वस्तुतः समयः नास्ति किन्तु किञ्चित् कर्तुं शक्नुमः अस्तु विसर्षणत्वेनापि प्रयोक्तुं शक्यते अर्धशब्दः शिष्यः श्रीमन् अर्धशब्दः विसर्षणत्वेनापि किं प्रयोक्तुं प्रयोक्तुं शक्यः मया श्रोतुम् आसीत् मया श्रु श्रुतम् आसीत् यत् अर्धशब्दः विसर्षणत्वेन प्रयोक्तुं न शक्यः इति आचार्यः मया अपि मयापि तथैव चिन्तितमासीत् इदानीं निर्णयः परिवृत्तः अस्ति शिष्यः कथम् एतत् आचार्यः अज्ञानम् अल्पज्ञानं वा इति वक्तव्यं शिष्यः मया स्पष्टतया न अवगतं भवतः कथनम् आचार्यः अर्धशब्दस्य एकदेशवाचकत्वं लोके प्रसिद्धम् एकदेशवाचि सर्वदा षष्ठ्यन्तेन एकत्ववाचिना अवयविना अभिसम्बन् सम्बध्यते अतः एव प्रथमा तत्पुरुषे पूर्वं कायस्य अपरं कायस्य इत्यादिषु उदाहरणेषु अवयवी सदा षष्ट्यन्तः एव भवति अवयवावयविनोः अभेदेन सम्बन्धः लोके न दृष्टचरः अतः अर्धं कार्यं इत्यादयः प्रयोगः न भवति इति उक्तम् अर्धं कार्यम् इत्यत्र अभेदेन सम्बन्धः तयोः तत् अयुक्तम् इति उक्तम् अस्तु प्रायः यतोहि समयः तावत् न तावत् नास्ति किञ्चित् भागं भागं दृष्ट्वा कुर्मः एतावत्पर्यन्तं पश्यामः अत्र प्रथमा तत्पुरुषसमासे पूर्वपदम् एकदशवाचि अतः एकदशसमासः इति वयं दृष्ट दृष्टवन्तः प्रथमतत्पुरुषसमासे पूर्वपदम् एकदेशवाचि अतः एकदेशीसमासः इति वयं दृष्टवन्तः पूर्वं पूर्वतने पाठे उदाहरणार्थम् अर्धपदम् अर्धशब्दः एकदेशवाचि इत्युक्ते अर्धं कश्चन भागः खलु विभजनं न भवति अतः एकदेशी एकदेशवाचकः फले भागः भवन्ति पुस्तके भागः पुस्तके यथा अर्धपुस्तकम् इत्यस्य पुस्तके भागाः भवन्ति शि अर्धशरीरं शरीरे भागाः भवन्ति फलं समुदायः शरीरं समुदायः समुदा समुदाये भवति भागे विभजनं न इति कारणतः एकादश वाचकत्वं भागे भवति अस्तु इदानीं पूर्वतने पाठे अर्धफलं प्रथमा तत्पुरुषसमासः विग्रहवाक्यम् अर्धं फलस्य इति वयं दृष्टवन्तः तत्र अर्धशब्दः विश्नं वा अस्तु प्रश्नः उदेति hmm. अत्र पूर्वतने पाठे अर्ध तत्पुरुष समस्तपदम् अस्ति अर्धफलम् अर्धं फलस्य इति विग्रहवाक्यं तु अत्र अर्ध शब्दः तत्र विशेषणम् अस्ति वा इति प्रश्नः अस्ति वा किं चिन्तनं अर्धफलं विग्रहवाक्यं भवति अर्धफलस्य तत्र विशेषणम् अस्ति न वा इति प्रश्नः उत्तरमस्ति वदतु भगिनि न इति अहम् उक्तवती किमर्थम् किमर्थमित्युक्ते विशेषणं भवति चेत् तत्तु अर्धस्य फलस्य किमपि भवितुम् अर्हति किल पुनः वदतु विशेषणं भवति चेत् अर्धस्य फलस्य किमपि तादृशम् आमामाम् आम, आम। तत् अर्धस्य अर्धस्य फलस्य अस्तु किं किञ्चित् वदामि अत्र विशेषणं तत्र अर्धं फलस्य न किमर्थम् एकः प्रसिद्धः श्लोकः भवति अस्माकं यद् लिङ्गं यद्वचनं या चा विभक्तिः विशेषस्य तद् लिङ्गं तद्वचनं सा एव विभक्तिः सा चा विभक्तिः विशेषणस्य इति श्रुतं श्वः श्रुतः वायः सर्वे जानन्ति यत्र विशेषणविशेषस्य सम्बन्धः भवति तत्र विभक्तिः समाना एव किन्तु अत्र प्रथम प्रथमा तत्पुरुषे समासे अस्माकं विग्रहवाक्ये भिन्नम् अर्धं फलस्य अर्धमिति का विभक्तिः फलस्य र... इति का विभक्तिः षष्टि षष्टिविभक्तिः अत्र यथा अस्ति अस्माकं श्लोकः तथा नास्ति अत्र mm -hmm. एवं यदि नास्ति तर्हि विशेषणविशेषस्य सम्बन्धः नास्ति एव mm -hmm. हा तु यथा इति नास्ति वस्तुतः सामान्यतत्पुरुषसमासे नियमः अस्ति विग्रहवाक्ये पूर्वपदस्य उत्तरपदस्य च समानविभक्तिकत्वं न भवति एव mm -hmm. नियमः अस्ति mm -hmm. उत्तरपदं नित्य प्रथमाविभक्तिः पूर्वपदं द्वितीय तृतीयचतुर्थिमपि भवितुमर्हति किन्तु सामान्यविभक्तिकत्वं न भवितुमर्हति सामान्यतत्पुरुषे सा सामान्यतत्पुरुषसमासे समान्यभिन्नविभक्तिः अस्ति पूर्वपदस्य उत्तरपदस्य समानविभक्तिः न भवितुमर्हति अस्ति चेत् तत्पुरुषसमा सामान्यतत्पुरुषसमस्तपदं नास्ति अस्तु यत्र समासे पूर्वपद उत्तरपदयोः समानविभक्तिः भवति तत्र कः समासः समस्तपदे पूर्वपद उत्तरपदयोः समाना विभक्तिः भवति चेत् तत्र कः समासः समासः द्वन्द्वसमासः तत् किञ्चित् भिन्नमस्ति तत् सत्यं किन्तु तत्र मम अस्तु द्वन्द्वसमासे एवं वक्तुं शक्यते किन्तु मम प्रश्नः तर्हि भवति यत् विशेष विशेषसम्बन्धः तत्र भवति द्वन्द्वसमासे वा न ना, तो कस्मिन् कस्मिन समस्तपदे विशेषविषयस्य वीशे सम्बन्धः भवति यत्र समान विभक्तिः भवति पूर्वपदस्य उत्तरपदस्य च हे न न सामान्य सामान्यविभक्तिः अस्ति अस्माकं परिचितः परिचितः बहुव्रीहि बहुभिः समासः भवितुमर्हति किन्तु एकः बहु प्रसिद्धः समासः अस्ति अस्माकं कर्मधारयसमासः शास्त्रीयसमासः अस्ति तत्र यत्र विशेषण विशेषणविशेषसम्बन्धः अस्ति यथा यथा उत्तमः उत्तमः बालकः उत्तमः बालकः समस्तपदं वदामश्चेत् कः भवति किं भवति सत्यं तत्र उत्तमा इति का विभक्तिः तत्र उत्तमः प्रथमाविभक्तिः उत्तमः बालकः उत्तमः इति प्रथमाविभक्तिः बालकः प्रथमाविभक्ति प्रथमाविभक्तिः अतः यत्र समासे पूर्वपद उत्तरपदयोः समाना विभक्तिः भवति यत्र विसर्षणविषयस्य सम्बन्धः भवति तत्र कर्मधारया समासः तत्र पूर्वपद उत्तरपदयोः विसर्षणविषयस्य सम्बन्धः भवति यत्र समासे द्वयोः पदयोः समानाविभक्तिः भवति तत्र वदामः समानाधिकरणं तस्य hmm. नाम अस्ति यत्र समानाधिकरणं hmm. प्रथम प्रथम पूर्वपदस्य hmm. उत्तरपदस्य च समानाविभक्तिः अस्ति समानाधिकरणम् इति उच्यते hmm. तत्तु किञ्चित् अग्रे अस्ति एतत् अस्तु एतावदेव वयं करिष्यामः अद्य आचार्यस्य प्रथमकथनं तत् तत् पश्यामः अत्र आच्यः अत्र पृश् पृच्छति यत् विशेषणत्वेन अर्धशब्दः प्रयोक्तुं शक्यः न वा आचार्यः भवति वदति अर्धशब्दस्य एकदेशवाचकत्वं लोके प्रसिद्धम् अर्धशब्दस्य एकदेशवाचकत्वं लोके प्रसिद्धं mm -hmm. तु अत्र अर्ध इति अस्माभिः अस्मा दृष्टं खलु एकदेशवाचकः अर्धशब्दः इत्युक्ते एकदेशे अस्ति एकस्मिन् देशे एकस्मिन् स्थाने तस्य विभजनं न भवति स्पष्टम् अनन्तरम् एकदेशवाचि सर्वदा षष्ठ्यन्तेन एकत्ववाचिना अवयविना अभिसम्बध्यते तो अत्र एकदेशवाचि सर्वदा यथा अर्धफलम् अथवा अर्धकार्यं एकदेशवाचि अर्धं तत्र सर्वदा षष्ठ्यन्तेन एकत्व एकत्ववाचिना अवयविना अभिसम्बध्यते अत्र एकदे एकत्ववाचि इति फलम् अथवा नगरं यस्य यस समुदायः अस्ति तत्र एक एकत्ववाचि इति उच्यते किमर्थम् इत्युक्ते तस्मिन् बहवः अवयवाः सन्ति तस्मिन् एक एकत्वमस्ति mm -hmm. एकस्मिन् स्थाने एकत्ववाचि एकत्ववाचि फलम् अथवा नगरम् अथवा पुस्तकम् अत्र एक एकत्ववाचिना इति का विभक्तिः सत्यम् एकत्ववाचिना अवयविना इत्युक्ते यस्मिन् अवयवाः सन्ति यस्मिन् एकत्व एकत्वमस्ति तेन सह एकदेशवाचि अर्धः शब्दः सर्वदा षष्ठ्यन्तेन अभिसम्बध्यते वाक्यम् अवगच्छति वा अस्तु अतः एव प्रथमा तत्पुरुषे पूर्वं कायस्य अपरं कायस्य इत्यादिषु उदाहरणेषु अवयवी सदा षष्ट्यन्तः एव भवति वयम् उक्तवन्तः पूर्वमेव अवयवावयविनोः अभेदेन सम्बद्धः लोके नादृष्टचरः अत्र अभेदेन सम्बन्धः इत्युक्ते समानविभक्तिः समानाविभक्तिः यत्र अवयवः अस्ति अवयवी अस्ति तयोः समानवि समानाविभक्तिः समाना न भवति यथा अर्धं फलस्य अतः अर्धं फलं न भवितुमर्हति अर्धं कार्यम् अर्धं नगरं न भवितुमर्हति अर्द्ध इत्युक्ते नगरस्य अर्थं स्पष्टमस्ति वा स्पष्टमस्ति अवयवायविनोः अभेदेन अभेदः इत्युक्ते समानवि अभेदः इति समानव समानाविभक्तिः अवय् अवयवावयविनोः अवयवावयविनोः अभेदेन सम्बन्धः लोके न दृष्टचरः अतः अर्धं कार्यम् इत्यादयः प्रयोगाः न भवन्ति इति उक्तम् यतोहि अर्धं कार्यम् तत्र अभेदेन सम्बन्धः अस्ति किन्तु अवयव अवयवायविनोः अभेदेन सम्बन्धः न भवितुमर्हति अर्धं कार्यम् इत्यत्र अभेदेन सम्बन्धः तयोः तत् अयुक्तम् इत्युक्ते असाधु इति उक्तम् अस्तु हा हा अस्तु इदानीं दशवादनमस्ति किं कुर्मः समापयितुं शक्नुमः अन इत्युक्ते आगामिसप्ताहे यत् विशिष्टभागम् अविशिष्टभागमस्ति तत् समापयितुं शक्यते तस्मिन् समये अथवा इदानीमपि कर्तुं शक्नुमः यथा इच्छा समाप्तं यतो यतोहि प्रायः अर्धघण्टा भविष्यति अस्मिन्नेव अतः समापयामः अनन्तरम् आगामिसप्ताहे एतत् समापयितुं शक्नुमः अस्तु महोदय आं भवान् वा आं वदतु भवान् ध्वनिमुद्रणं स्थापितवान् वा आमा अस्तु एतत् सर्वं प्रेषयिष्यामि अस्तु अस्तु धन्यवादः यथा मास्तु अस्तु धन्यवादः शुभरात्रिः धन्यवादः अस्तु धन्यवादः शुभरात्रिः शुभरात्रि